श्रीहरये नमः अथ विंशोऽध्यायः श्रीशुक उपाच अतः परं लक्षादीनां प्रमाणलक्षण संस्थानतो वर्षविभाग उपवर्ण्यते जम्बू द्विपोऽयं यावत् परिवेष्टितो यथा मेरोर्जम्प्क्येन लवणो धतिरपि ततो द्विगुणविशालेन प्लक्षाक्येन परिक्षिप्तो यथा परिह बाह्यो भवनेन प्लक्षो जम्बूप्रमाणो द्विवाक्याकरो रण्मय उत्थितो यत्र अग्नेः उपास्ते सप्त जिह्स्याधिपतिः प्रियव्रतात्मजयित्मजिजिह्वस्वं द्वीपं सप्तवर्षाणि विभज्य सप्तवर्ष नामभ्य आत्मजेभ्य आकलय्य स्वयम् आत्मयोगेनोपराम शिवं व्यवसं सुभद्रं शान्तं क्षेमम् अमृतम् अभयमिति वर्षाणि तेषु गिरयो नप्तैश्च सप्तैवाभिज्ञातः मणिकूटो वज्रकूटिन्द्रसेनो ज्योतिष्माञ्चपर्ण अरुणा नृम्णा आङ्गिरसि सावित्री सुप्रभाता रुतंभरा सत्यं इति महानद्यः यासां जलोपस्पर्शनविधूत रजस्तमसोऽहंसपदङ्गोर्ध्वायन सत्याङ्गज्ञाश्चत्वारो वर्णा सहस्रायुषो विबुधोपमसन्दर्शन प्रजनना स्वर्गद्वारं त्रय्यां विद्ययाभगवन्तं त्रयीमयं सूर्यमात्मानं यजन्ते रत्नस्य विष्णोरूपं यत् सत्यस्यर्थस्य ब्रह्मणः अमृतस्य च मृत्योश्च सूर्यम् आत्मानमीमहीति प्लक्षादिषु पञ्चसु पुरुषाणाम् आयुरिन्द्रियमोजसः भलं भुत्ते विक्रम इति च सर्वेषामौद्भक्तिकीं सिद्धि अविषेण वर्तते प्लक्षस्व समानेन इक्ष्णु रसोधेन आवृतो यथा तथा द्वीपोऽपि साल्मलो द्विगुणविलासः समानेन सुरोदेनावृत परिवृङ्क्ते यत्र वै साल्मली प्लक्षया मा यस्याम्बावकिलनिलयमाकोर्भक्तव भगवतश्चन्तस्तुतः भदत्प्रिराजस्य सा द्वीपहूतये उपलक्ष्यते तद्वीपाधिपतिः प्रियं व्रतात्मजो यज्ञबाहु स्वसुधेभ्यः सप्तभ्य तन्नामानि सप्तवर्षाणि व्यभजत् सुरोचनं सौमनस्यं रमणकं देववर्षं परिभद्रम् आप्यायनं अभिज्ञातमिति तेषु वर्षाद्वयो नद्यः स सप्तैवाभिज्ञाताः स्वरससदशङ्गो वामदेवकुन्तो मुकुन्तः पुष्पवर्षः सहस्रश्रुतिरिति अनुभति स्थिनीवाली कुहूरजनीनन्धाराहेती तद्वर्षपुरुषाश्रुतधर वीर्यधर वसुन्धरे शन्धरसंज्ञा भगवन्तं वेदमयं सोमम् आत्मानं वेदेन स्वगोपि पितृदेवेभ्यो विभजन् कृष्णशुक्लयोः प्रजानां सर्वासां राजान्ध सोमो आस्त्विती एवं शुरोधात् सामाने आवृतो क्रुधो देन यथा पूर्वकुशद्वीपो यस्मिन्कुशस्तम्भो देवकृतस्तद् द्वीपाग्याकरोज्ज्वलनयि वा पर स्वस्य परोचिषा दिशो विराजयति तद्वीपपतिप्रयव्रतो राजन् हिरण्यरेता नाम स्वं द्वीपम् सप्तभ्यः स्वपुत्रेभ्यो यथा भागम् विभज्य स्वयम् तप आतिष्ठत वसुवसुधानृतरुचिना विगुप्तस्तुत्यव्रत तेषां वर्षेषु सीमा गिरयो नद्यश्चाभिज्ञाता सप्त सप्तैव चक्रस्तु शृङ्गकपिलश्चित्रकूटो देवानीकवूर्ध्वरोमो द्रविण इति रसकुल्यां श्रुतविन्धा देव गर्भागृतच्युतामन्त्रमालेति यासां पयोभि कुशद्वीपौकसः कुशलको विधापि योक्त कुलकसंज्ञा भगवन्तं जातवेदस्सरूपिणं कर्म परस्य ब्रह्मणः जातवेतोसि हव्य देवानां पुरुषाङ्गानां यज्ञेन पुरुषं यजेति तथा कृतोधात् बहिर्क्रौञ्चन् द्वीपो परित उपल्क् उपक्लृब्धो मृतो यथा कुशद्वीपो घृतोधेन यस्मिन् क्रौञो नाम पर्वतराजो द्वीपनाम निर्वर्तक आस्ते योऽसौ गुह प्रहरणोन्मतितनिदम्भ कुञ्चो भि आशिष्यमानो भगवता वरुणेनाभि गुप्तो विभयो बभूव तस्मिन् अपि प्रयैव्रतो कृतपृष्ठो नामाधिपतिस्वेद्वीपे वर्षाणि सप्त पुत्रनामासु सप्त वर्षपान्निवेश्य स्वयम् भगवान् भगवतः परमकल्याणयस आत्मभूतस्य हरेश्चरणारविन्दम् उभ जगाम आमो मधुरुहो मेघभृष्ठ सुधामा प्राजिष्टो लोहितार्णो वनस्पतिरिति गृप्तः सुधास्तेषां वर्षगिरयः सप्तसप्तैव नद्यश्चाभिख्यातः शुक्लो वर्धमानो भोजन नन्दो नन्दन सर्वतो भद्र इति अभया अमृतौघा आर्यकातीर्थवती वृत्तिरूपवती पवित्रवती शुक्ले ती या समाम्भः पवित्रं ममलम् उपयुज्यानाः पुरुषरुषभद्रविणा देवकसंज्ञावर्षपुरुष आपोमयं देवमभां पूर्णे अञ्जलिना यजन्ते आपः पुरुषवीर्यास्तपुनन्तीर्भूर्भुवः सुवः तानः पुतामी अग्नि स्पृशतामात्मना भुव इति एवं पुरस्ताक्षीरोधात् परित उपवेशित साघद्विभोद् मात्रिं सल्लशयो जानायाम सामानेन च दधिमण्ढधोदेन परीतो यस्मिन् सा गो स्वेक्षत्रव्यभदेश गो यस्यः महासुरभिगन्तस्तं द्वीपम् अनुवासयति तस्यापि प्रयैव्रतये वाधिपतिर्नाम्ना मेधाधित्सोऽपि विभज्य सप्तवर्षाणि पुत्रनामानि तेषु स्वात्मजान् पवमानधूम्राणीकचित्ररेप बहुरूपविस्वधार संज्ञानिताभ्याधिपतीन् स्वयं भगवति अनन्त आवेशितमतिस्तपोवनं प्रविवेश एतेषां वर्षमर्त्यािरयो नद्यश्च सप्त सप्तैव ईशान उरुश्रृङ्गो बलभद्रशतकेशर सहस्रस्रोतो देवपालो महानस आयुर्धा उपयस्पृष्टि अपराजिता पञ्चभते सहस्रश्रुतिर्निजत्रुतिरिति सत्वर्षपुरुषा ऋतव्रत सत्यव्रतधानव्रत अनो व्रत नामा नो भगवन्तं वाय्वात्मकं प्राणायाम विधूतरजस्तमसः परमसमाधिना यजन्ते अन्तःप्रविश्च भूतानि यो भिपर्ति आत्मकेदुभिः अन्तर्यामीश्वरसाक्षात्पादुनो यद्वसे स्फुटम् एवमेव दधिमण्ढोधात्परतः पुष्करद्विभस्ततो द्विगुणायामः समन्तत बहिरावृतो यस्मिन् बृहत् पुष्टरं ज्वलनासि कामलकनक्रायुतायुतं भगवतः कमलासनस्याध्यासनं परिकल्पितं तद्वीपमध्ये मानसोत्तर नामैकये वार्वाचीन मर्यादाशलो युतयो जनोश्रायायामो यत्र तु सतश्रुषु दीक्षो चत्वारि पुराणिलोकपालानाम् इन्द्राधीनां यदुभरिष्टात् सूर्यरतस्य मेरों परिभ्रमत संवत्सरात्मकं चक्रं देवानाम् अहोरार्द्राभ्यां परिभ्रमतीं तद्वीपस्याप्यधयतिं प्रयव्रतो वीतिहोत्रो नाम एतस्यात्मजौ रमणगधातकी नामानो वर्षपति नियुज्यस स्वयं पूर्वजवत् भगवत्कर्मशील एवास्ते तद्वर्षपुरुषा भगवन्तं ब्रह्मरूपिणं सकर्मकेन कर्मकेन कर्मणा आराधयन्ती धं चोदाहरन्ती यत् यत्कर्ममयं लिङ्गं ब्रह्मलिङ्गं जनोर्चयेत् एकान्तम् अद्वयं शान्तं तस्मै भगवतेन महिति ऋषिरुवाच ततः परस्ताल्लोकालोकनामचलो लोका लोकयोरान्धराळे परित उपक्षिप्तः यावन्मानसोत्तरमेर्वोरन्तरं तावती भूमिकाञ्चनयन्या आदर्शतलोपमा यस्यां प्रहितः पदार्थो प्रत्युबलभ्यते कथचित् पुनः प्रत्युपलभ्यते तस्मात् सर्वं सत्त्वपरिहृतासीत् लोकालोक इति समाज्ञा चलेन लोकालोकस्यान्तर्वर्तिनावस्थाप्यते स लोकत्रयान्ते परिथ विहितो यस्मात् सूर्यादीनां ध्रुवापवर्गाणां ज्योतिर्गणानां गपस्तयोर्वाचीनां स्त्रील्लोकाना वितन्वानान् कदाचित्पराचीना भवितुमुत्सुहं ते तावद् उन्न नायामः एतावाल्लोकविन्यासो लक्षणसंस्थाभिर्विचिन्तितः कविभिस्सतु पञ्चाशत्कोटिगणितस्य भूकोळस्य तुरीयभागोऽयं लोकालोकाचलः तदुपरिष्ठा च अधिनिवेशिता ये द्विरतपतय ऋषभ पुष्करषूढो वामनोपराजित इति सकलोकस्थितिहेतवः तेषां स्वविभूतीनां लोकपालानां च पिवितवीर्योपभ्रमणाय भगवान् परममहापुरुषो महाविभूतिपतिः अन्तर्यां यात्मनो विशुद्धसत्त्वं धर्मज्ञानवैराग्य ऐश्वर्यादि अष्टमहासिद्धि उपलक्षणं विश्वक्सेनादिभिः स्वपार्षदप्रवरैः परिवारितो निजवरायुधोपशोभितैर्निज भुज धण्टैः सन्तारयमाणस्तस्मिन् गिरिवरे समन्ता सकलोकस्वस्तय आकल्पमेवं वेषं गत एष भगवानात्मयोगमायया विरचिता विविधलोकयात्रा गोपीयायेत्यर्थतः योऽन्तर्विस्तार एतेन ह्यलोकपरिमाणं च व्याख्यातं यद् ततः परस्ताद्योगस्वरगतिं विशुद्धामुदाहरन्ती अण्डमद्यगतसूर्यो द्यावा भूम्योर्यधन्तरं सूर्याण्डकोळयोर्मध्ये कोट्यश्यु रथेण्डयेशये तस्मिन् यदभूत् ततो मार्तण्डयिति व्यबेशः हिरण्यगर्भ इति यत् हिरण्याण्डसमुद्भवः सूर्येण हि विभज्यन्ते दिशकं द्यौर्महीभिता स्वर्गापवर्गौ नरकारसौ कांसी च सर्वसः देव दुर्यङ्मनुष्याणां सरीशृपसीरुधा सर्वजीवनिकाया सूर्यात्मादृकीश्वरः इति श्रीमद्भागवते महापुराणे पञ्चमस्कन्ते भुवनकोशवर्णने समुद्रवर्षसन्निवेशपरिमाणलक्षणोविंशोऽध्यायः सर्वात्र गोपिका जीवनस्मरणं गोविन्दा गोविन्दा सद्गुरुरात्महराजिके जय